देवो भेदेपायसन्तरिक्षाजमानोज्ञातुचक्षुषः कक्षतोविश्वे भित्त्वमनामभविधेमशेषे भित्त्वमनामभविधेमते अहम् परस्ता धर्मवत्सरम् ज्योतितामो प्रमाण यदन्तरिक्षम् तदु मे पिता भोजागुम्भो ज्यमुषयतोहम्भो यादमुत्तमस्तमानानापातपुत्राकान्तरिक्षात् प्रजापजलभिद्यावजातेन्द्रप्रत्नौ तु मरुतो वरितयन्तोऽन्नम् प्रयभेम् गर्धेदम् निर्यन्नभः निर्यच्च न देहेशातम् पशवोवादेशे विरादित्य एतदृष्णो यलोके वादित्यञ्जहो विष्णा देवपशोनन्दर्तिपुे प्रेमपशोन् प्रचख्या वेति कविरेज्ञश्चिनो निबन्धान्नाकस्य वृष्टे अभिलोचने विलः येन हव्यम्वरधिजाभूत इतः प्रचेता अमुदत्तनीया त्वविधस्तम् तज्ञेया पृथिव्याम् परिहृषो येयाः सायगच्छन् पाजम् देवायते विजमानाय सम्मानस्त्वम् राजः कोषड्विश्वयम् प्रतिना राजा स्वदातु पोभक्ष्यञ्जमानाय पृच्छा अनुन्तानिक्या विभजता सन्तानक्यापकोषभीः सन्तानक्या विप्रजानमत्सदासनभोपायमत्मे ब्रह्मपथीवे सम्पन्नेन असाहमनुभाविने लोके निशाविधा वेणुसपत्नेन हर्गेतवत्सरम्भनवरभ्यासो हदारभ्याम् हिमन्यस्या विवरुणस्य पादन्यमबेदसविता सुकेतः धातुश्च नदस्य लोके सोऽनम्ये सह पत्या करोमि ुरस्य भामिनं भग्रच्चयत्वर्मभ्यङ्गलतागं रुज्रावदृष्टादियुगानाममायभ्य रुद्रेच्छादित्यश्वेभ्येवेत्य पन्ने दिने गृह्णामिज्ञाय पन्ने दिने साधयामि विश्वस्य ते विश्वावसौ वृष्टियामदत्तमाराज्ञे भामेन विश्वारेतागं हि यज्ञोनि देवे देवेभ्यो निज्ञमजरम् अक्षरन् सम्मरे नेच्छागम् सर्वमापक्षतादर्शपत्मनिरीरा अगत्कार वेदायत्रेलाक्षिनत्तत्रे नेयं प्राविषप्रकरिराभवध्यस्य खादिवा भवति चन्दकामे वरसेनावक्षि दर्गास्याहुदया भवन्ति यस्यामिदो महाभेत्सङ्गायत्रियाहत्तश्च वन्दवच्छिज्यविनत्पर्णाफ्पर्णश्च वर्णश्च यश्च वह्मगेभव्याहुदया भव देवाहुदेवा वै ब्रह्मन्नवन्द पर्णवपायणात्मवायश्च पन्नमये भगवात् भवत्यंशनो विद्रं हरे पर्मारिमरुदान्नं वृण्मारुदो तत्थो यश्च वन्नमये जगवाभवत्या सत्य भवद्ब्रह्मणैवान्नमरुञ्जयब्रह्मैवाच्च ज्यो हरिदाश्चं वै पर्णो भवत्या भवत्यामेवोभजे प्रजापर्वाशुभायत्राहुजप्रत्ययक्षत्ततोकटमुदयक्षत्र प्रजा अभुजयश्च वैशङ्कटे ध्रुवा भवति प्रत्यैवाच्याहृदयतीर्थञ्च भवाैवजागत एतद्वये सुजा गौरोपै यश्चैव गौरोपास्तु च भवन्ति सर्वान्येवेन गोरूपाव गोजानुपतीर्थम् ्यापलोकमात्रम् ज्ञायते यामि ज्योतिक् प्रजापदये स्वा ज्योतिष्मदे ज्योतिष्मन्तं ग्रन्हादिरक्षाय कले रातं प्रमदायभ्यभाताविभ्य पद्यं जाभ्यो दवे स्वान्तरिक्षाय प्रायुर्वेत् स्वादय त्वा धानाय त्वा ज्ञानाय प्राभरे भरे त्वाद्धमृगे भ्रम विश्वे धत्वा भोजय भ्रवजः प्रजाक्षित्रामये त्वा प्रजापदये भोजानन्ने म्बाध्वर्यवानश्च देवतामन्त्रिनस्तस्यावृष्टे प्राजापत्यन्दसि ग्रहम् गृहीणा प्रजापति सर्वा देवता देवताम्भवाचेष्ठो वाग्रहाश्चेत गृत्येव गच्छति सर्वा धाम्बा हेतदेवता नागौ रोपण्य देशग्रहो यस्यैष गृह्यते ष्ठन्दयाः द्वौ प्रदावदये ज्योलिष्पदे द्वौ पन्तं ग्रन्थामेश्चाजयेन तारभ्यैश्चाहैतावतेर्वे देवतां सर्वाभ्यो ग्रन्थामयश्चाभ्यासु या भवे धाजप्रेण प्रजापदये भोदावन्दे ज्योतिष्पदे ज्योतिष्पन्दं ज्योनेत्याः प्रजापदय सर्वादेव सर्वाभ्यम् देवताः त्याद्य ग्रहम् ग्रन्थेया तेजस्कामश्च सोमाः ज्यम् तेजश्चे गभदि भोमग्रहम् ग्रन्थेन ब्रह्मल चतुकामश्च ब्रह्मल चदम्बे सोमाः ब्रह्मलश्चैलभफले गणग्रन्थेन पशुकामस्यो पशवगोजैवात्मानरोच्यम् पशोनवरुन्धे निरञ्जनम् चविष्टैवेदम् चो नाः प्रजापतिभेदो यत् प्रजापतये चेत प्रजापदये ग्रन्थावद्वाचिजापेत न्दागुण्डिवृष्ठा विश्वे जयखारेण ब्राह्मणा पुराम न्तः प्राप्तम् सर्वादिषोभिषिता भोमीवेक्ष्यं चेक्ष्यमेव गच्छं शेषं चैव्यं क्षेम प्राणा प्राणामेव प्राणाय प्राणग्रा प्राणेनेव प्रयञ्च ृक्ष्यन्ते प्राणादे प्राणः प्राणेभ्यक्षा वेदप्रचार्यन्ते यत् वामदेश्च समेहम् वामदे यत्र समेहम् गृह्यन्ते प्राणेभ्य प्रजायन्ते अयमुश्रदे वयो भवता निज्ञायीयते अयमद्यम् देवो देवापदे कृतः पदे वयम् नास्थिव्या अभि मह्यज्ञे त्रे नित्यम् नमानाय साधु शीतहो दत्त्व लोकेऽपित्वाम् कादगादित्यंशुरक्षणोः देवादेवानहृगायज्ञेर्भक्षमानैवयोः ुलक्षः प्रदजर्वत्रम् भरत्सु विजित्व अग्निः तम् दोतस्त्वमुनः परत्रापत्र नेता अग्ने दोतस्य ने अनु नामत्व यत्सञ्जेत्यः हरित्वादेवर्याणाम् हेद्याप्रतिवेचनजिमै यज्ञम् पुस्तमन्थराध्राविश्वस्य बाधकः अमुत्रालभ्यम् गजत्पुत्रये अथर्वणः तत्सहनम् पुरम् लयनम् अमुत्रापार्थो च धनञ्जनगो उत ब्रुवन्तजन्तबुध्ये धनञ्जनो हेन भासित पुंसिम् जातम् इशामग्निवम् देवरमम् आजातम् जातवेदप्रियपुंसिकेतातिथिम् म् अर्जुनाद्यते अग्ने अर्जुना विश्वे नानम् सदा सखादख्यासमिध्यते सम्मज्जयन्त दुःखम् पुनो यावानभाजिषोक्षले गृभाजिनम् शक्येन यज्ञायजन्तदेवास्तानि धर्माणि प्रथमान्यासन्नम्बिमानः सचन्ते यश्च पूर्वे भध्याप्तम् विदेवाः ॐकाण्डः समाप्तः चतुर्थकाण्डः प्रारम्भः ओ इञ्जालः प्रथमम् मनःसत्त्वारितभियः ह्यञ्जोचर्यताय पृथिव्याध्याभयते चरित्वाय मनसा देवान् सुपर्षतोऽभिया इवम् प्रदर्जोयष्करिष्यत स पिता प्रसुपादिता न मनसा वयम् प्रयवक्षतवितरे सदर्गेण विधच्छेः किञ्च ते महपुनलिञ्जते जयोप्राविप्रश्चिपश्चितःफलस्तुतिः दिवान् ब्रह्मपूर्जम् नमोदरिष्वकारिङ्गाः श्रीमन्त्रिश्वे अमृतस्य पुत्राय सामान्यविद्यादि तत्सव यस्य प्रजास्य महिमानमधरः पदुरैज्ञम् बलो यज्ञमतिम्भराय विजयम् धर्मः क्षयतम् अनातु राजस्वच्वाच मध्यस्त्वणः ज्ञम् पशुपलेवायुव्यागौ सुवर्जितम् कृषास्वभुम् समर्जयकार्यत्रेण सन्धयम् यत्र वर्तली बाहुभ्याः त्रेण ददातुङ्गिरस्पलभ्य दिनालिलिभृजः तदस्था लिम् पुरे चाङ्गत्रयु त्वाङ्गिरस्पद्भ्यदिनालिलपि त्वया वयं सहस्थानि स्वाचन्ददातुङ्गिरस्वद्भ न्दृतस्य नाक्तम् वायम्नाद्यक्षामनुवतम् श्रीकैजन्मेव जन्मसुज्यम् परञ्चमत्मयम् योगे योगे समस्त हवामहे सखागेन्द्रमोदये रतो भक्ता वन्नसत्क्रे रुद्रस्य भालवत्याम्बो भूरे न्द्रमन्त्रे स्वस्त्रयो कृण्वन् वैलासः पदस्था यज्ञम् पुरेश्च मङ्गिरः पदच्छे यज्ञम् पुरेश्चमङ्गिरः पदच्छे भोज्यम् पुरेश्चमङ्गिरस्पद्भरिष्या भोज्यम् पुरेश्चमङ्गिरःपद्भरामः अन्वक्षरुमग्रमक्षरम् महानि अल् यत् भवत्याचलेन आतदाना आगत्य वाच्यफलः सर्वानुभवृते अग्निमयम् अग्निमिच्छात्मोम्या वृत्ताय माय नक्षराफलम् भयम् ृक्षम्बवे तदस्त्वम् समुद्रेक्षाक्षात्मभिलक्षामौभरागात्मादावाजिन् अयक्ष्यामधुमौपभिर्जान्धमित्यम् उपश्चयः द्रविनादाभाज्यर्वागस्तम् सुगदम् बिर्याः यसादम् संयच्छमन्नभम् निदानम् यम् वित्रगुम् प्रत्यरम्भम् गोदावतः क्षमभ्यक्षमीमनेभ्यक्तमोढेभ्यक्तम्भ्याम् प्रोत्साहसाभ्याम् पृथिव्याम् पुरे क्षम्यत्वम् सन्पार्गेण गमनत्वेन बालाने ज्ञानम् शिवम् प्रजाभ्योहिम् सूर्यास्तेम् पुरेश्वमन्यत्खनानि अपराम् वृक्षमसि सप्रभाज्ञम् परेश्वरवरा वृष्ठम् अर्थमानम् महागमुक्तम् जिवभात्यया वरिणा प्रभक्त्वा धर्मजस्व कर्मजस्व अच्छिद्रे बहुले उदे हिरस्परे सम्प्रसाम् भर्तमज्ञम् पुरेश्यम् गुन्तुमर्मिता भवेत् भविष्यन्तेश्वः अनर्वात्प्रथमोदमन्थलज्ञे स्वामग्ने पुत्ररादर्थमन्थरास्य पार्धवः समुत्त्वा अथर्वणः सहम् पुनम् बलकाबाचो न आभिषेकेदं सन्तवन् सनमजयं गङ्गालये श्रीधोदः सोलोकजित्वां तत्र यत्तु सुरतस्य नमो एता एतैव आदभिताददा तके वरत्नमानाय मलोहा चगोताहोदः सकले विनानुष्टे सो श्रीविमागुणात् तुक्षः ह्मागुहितो <Sessly> ते बालं मारिस्वान् सुधासोत्थानं केतदं गञ्ञत्नेतम् एवान् आयस्तरिव्राणभे वत्सैजैव वघयत्तुभ्यं सुधालोचोदसा महादनं मनलो समाहर्तुमः मार्गावरं केतस्वान् भगवन् किं रसविभावतु मुजेत्तत्पद्भयानानो देव्या गता जिचेत भाड़पावि रतावि शक्पने आज्मे गाजिन सत्किलें। ओन्धा उट्णा उट्णा उट्णे विच्छावे बोड़ गिनाव। ओन्धो अबाजस्टरिकाजन्जलें वाधत्जर्विक्पजामें। अज्दातो नग्भाजिरोरस्क्वराग्नेचा र शिवभवङ्गासद्भवाच्चमग्नेभवमानसेत्त्वमङ्गिरः क्षम्मा महत्पदे कनिकसज्जातभक्तत्वाज्यायतः पुरा ोतो महादिनः शिवमायुसम्यत्रयुक्तार कोटलजः प्रतिमादम्बग्भनित्यगम् सह समादवारिकर्म नित्यामग्ने योगशिमनोहनदत्तक्षायः छिदप्रकुंसश्च पृथिरे े त्वा देवाय स्वानक्षदे अर्थे फलि श्रुत्वा देवेषु रोचते खगुताम् मधुदेव कर्मण्याम् ुभ्यामुयार्थः अपर स्वागन्वं सदायत्रेण कन्दराङ्गत्रैत्रदराङ्गगन्तैकवचायच्छा स्वागन्वं सदा गजैनकन्दराङ्गेपाकण्डन्तानुराङ्गो युवारि भारणामय प्रजानुगस्त्व गङ्गौ भत्यगुं धैर्यं प्रजातामेह न्द्योभ्यस्तम् <laughs> कामिच्छति असमत्ता भूमयं च नायत्रेण सन्दराङ्गद्भुग्रास्ता भूभयं दुत्रेश्वन सुन्दराङ्गे अश्वरास्ता भोभयं तु कागतेन चन्दराङ्गे अश्वत्वा देवालयेष्वा नराधोभयं त्वारक्षदेन चन्दराङ्ग्रस्ताोभयत्प्रे अस्तुक्तस्ताधोभयत्वङ्गे अस्मद्वरुणस्ताधोभयप्रङ्गे अस्मधित्वा देवी विश्वदे पृथिव्या परथेङ्ग्यावले पृथिव्या परथेङ्गेश्वरे ज्ञावले पृथिव्या परथेङ्गरा मुखे ज्ञात्वा देवे विश्वरे ज्ञावले पृथिव्या परथेङ्गयं दोषे मलो ्याङ्गो कृष्णेषामुखाम्पेषामारेनाम् महिनादिवम् मित्रा बृथिवे कृश्च ृथव्या त्वाच्छन्दम् च मायत्रेण छन्दसाङ्गद्भुद्रा त्वाच्छन्दम् पुत्रैश्वरेण छन्दसाङ्गस्पदा यच्छा स्वाच्छन्दम् दुषागरेण छन्दसाङ्गद्विक्रेष्वदेवालये स्वारा छन्दन् पास्कृतेन छन्दसाङ्गदे समास्त्वाक्षरोहृदयम् कौलिजेन विश्वारितप्रचमिताः कौले ध्यत्वा अग्ने ब्रह्मारम् पुमान्ये वामेवलदे ब्राह्मणे अग्ने बं वलदे भवानः अधिमानित्यप्रयुच्छन् यैवा ज्ञे अधिधार्यम् वा नित्यम् गो क्वतोऽधिकारिणः शर्तमज्ञैमस्तवर्धनाम् जय अनिप्रिनः शर्केणा ज्ञेयस्वायुत्रगौरभक्तमित्रेणा ज्ञेमित्तधेये भ्यम् भव अनाधिशो जातवे अरिष्टिरानक्षत्रभज्जेः िलाभिरैवाजिनांसगं शिवञ्चित्सन्तंशकं शिवाभिः अर्धरेणते समुखकारः अमन्तभोजाभिषत्पदे अभिषत्तेनम् च पत्यौ हापनामत्यमस्माद्देवानायम् तमसत्त्वदिपश्यन् सोदिवृत्सम् शेवन्ते मत्प्राभोजमयम् मध्यो दिवत्समनम् भवन्तः किमस्तमा पुत्रजे कक्षोणाः कलो नेदा देवो देवेषु ुश्व प्रयप्त आज्ञे त्वयि मङ्गाभुत्वयः सुभासनश्च लारो देवेरं बत्रिष्वेरं घर्दादुरंत अग्ने, पुरुप्यत तोधान नापत्यवाना, तेरस्त जोगने रिज्जेरोना उठाजानक्ता, तिमेंगे ज्योदामत भरन्ना, है ज्या होतारा बोगोट भरन्नोग्ने, जिष्वा भिदुमेतं, पुरुगन अstra dev me variharedam saram te agrapathe pharake ayekamana tanasvale mahabharam varakshat patka bahiram tarakko dam kshipta nadhirapne pana pataye kusajana ad mahareve do akhe halkemud samitanam so galase arne swaha gane gamaya yantyam ै देवाय हरिता शक्रानतो निमिषतामहित्रैद्राजालता देवाय हविषाविधेम यस्य निष्व उपाश्रे प्रतिरञ्जस्य देवाः शक्त्यछाया हृदयस्य मृत्यः कस्मै देवाय हविनाभिधेम शे हिमवन्तो महित्वायस्तुः यत्केना प्रतिशो यस्य बाहो कस्मै देवाय हविनाभिधेमीरवदावृत्ते अभ्येक्षे मात्मन ै देवाय हविनादिधेमाद्यो चिषेये नञ्जेन हमिनाभिधेमापो हयम् हतेयम् चक्रम् दधानान्ते रम् ततो कक्षस्त्वै देवाय हविषाभिधेम कथ केदाहवा महिना परियम शब्द खंडनाना जननते अज्ञं तौरेवे पदिलेवगे काले तस्मै देवाय अविज्ञानदिहेमा आगोतिमद्यम् परिषज्यस्वाहामद्यम् परिषज्जस्थाः चित्तम् नित्याम् परिषद्यस्वाः वाचोविधम् वैरक्ष्यः देवस्य मत्वा वयेख्यम् विश्वे कारेण पुक्षरेण साहाय अमृतयत्वाद्यश्च सः सत्पुत्र अद्भुतः परस्याम् अभ्यासः अवारातस्ते प्रियाज्ञानम् मातुरत्याभस्य विस्वाहान्यज्ञान ृत्रजौादात शिव भिविप्रेषोगे शिवस्था निशा शरत्युपयष्टिकायसंत्रिगो रात्रिमक्षया बलम् त्वा स्वाध्यतिष्ठते भातवस्मैश्व य कोशाय रामहे शिरम्बम् वदनानुदाम् अभिक्तये दिवस्य यम् भोमद्यम्भे त्वम्भ्यागत्रेणाम् भगवत्सागत्वम् एकेन मयम्भेण एकक्षेपम्भयोः आत्मभ्यमनाधीयाद्यत्र मात्रेभे नमः अस्मान् पञ्चम् मत्मका षितम् मे ब्रह्म शुंशितम् वेद्य षंशिरम् सत्यम् वित्तस्य पुरोहितः श्रेराम् बाहुवरयनुगर्चलदूम् शिला विब्रह्मया विप्रालन्मया विस्ताम् अहम् भरिकते ष्पालोपाधिपञ्चले हविप्रासादे सद्यतावरे ज्ञानप्रयाणमुषभौनिराजये ैर्भावने सुंसीति अन्तरविभाजे वा ह्यन्धार वर्णाधिगुत्मा प्रवृत्यम् चक्षुस्त्वम अमात्मा यज्ञानि यज्ञम् पुच्छन्दायज्ञानिवृत्त्यागुम् वर्णाधिगुत्थातुमत्फलम् यस्वतः परिभोरी गच्छति मया भवन्ति भगो देवस्य धीमहि शिरोलो न प्रचोदयाश्च कुमारे द्रक्षे प्रभो दे गोरुषत्व एवम एव धर्मे धर्मे सत्त्त्वमार्थसुवकादनाय कथा तवैति पुदुदानां इच्छहं ते नम्रेणाैकेंद्रभेदरत्पते आलिरे कन्याचित्रजस्वर्पते वीरवक्त्रेधिं धार नदक्षेत्रगौसंभवं भजोजादः शरणं गते सम्मयेकं सदे ओषाया अन्वेषः कोषायक्षत्रपर्वतः कोषावायगुंसमगुणः शुक्रन्ते अन्यक्ष्यजन्ते अन्यक्ष्य लोके अवनेत्यौ निवासेवाया अवजिप्रभावो भद्राके पोषम् निषदादिभक्तो चित्तवर्कम् क्रिणते पुनाय मारुकायम् अग्ने पकेभ्यः इष्टानिश्चय देवाः सिद्धमग्निर्विशम् हेत्यम् देवेष् यच्छताम् त्यश्च अभ्यग् समन्वये भवन्तरे यच्छन् विक्रमस्वनिर्भक् कर्तयन् यत्नाक्रमास्त्वपञ्चारमस्वनिर्भक् कर्तयन् यत्नाक्रमाश्च रा यतो हन्तां रा हरिपवस्वनिर्भक् कर्तयन् यत्मो जित्रो यतो हन्त विषो निमित्तमत्त्वनिर्भर्तयम् विद्मः आक्रन्दभ्यस्तनोक्षे सत्वमञ्जन् सद्यो ज्ञानोदिः विद्वानुनावभाव अग्ने अङ्गेक्षतम् ते भक्तमानिवत्त पुनरयुधानिवत्तया श्वया ष्ठाधिकारः सम्सप्तम् अर्गन् मृगदा भवन्य अद्य हे सत्सम् मातुरस्यान्तरत्यागो शक्तज्ञाय प्रतिभागे अन्तरज्ञे ददामुखालेरत्रिवभवः शिवो भवत्तामख्यमत्वादिशत्सर्मानिवासदः हि विजयदशो मनुरध्याम् बृहदे शिवः परिप्रथमम् यज्ञे अद्य रथद्वितीयम् बलिजाजवेदाः श्रुनमक्तुलमनाजप्रमिन्धालयेणे स्वाभिः श्रीग्माते अग्ने त्रयसः क्रियानि विद्मादे सद्मरिभृतम् पुरुषा श्रीग्माते नाम परमम्बुभायत् विद्वामुत् ह्यगन्धः अप्तम् सुरक्षागीधे दिवो अज्ञवोधन् श्रीये त्वारदशिरस्य वागम् समृतस्य यो नो महिन्वन् अत्रज्ञनद्यवो होक्षा मारे निवद्भे सत्समञ्च सद्योदिज्ञानो विहेमिख्यदामुनाभात्यन्तः उषित्वा वकोहरजिस्तु मेधामर्थ्येधायस्य सोममऋषम्भरिक्षुक्रेण शोषिताध्यामिनक्षते विश्वस्य केसद्भुवनस्य गर्भारोदीनृणाजायमानः क्रीडु चिदद्यमभिनत्वनायम् च नारिमग्निमैलम् सपञ्च श्रीरामुदानो धर्मोदयीनाम् महीषाणाम् प्रात्मनः सोमोपाताः सो न तुलाशालिभाच्रवृषदालिभानः क्षत्रे अद्य गिणवद्भद्रशौर्ये रूपम् चैव खिलवन्तमग्ने प्रसन्नयप्रतलाम् वत्यो अर्थाभिद्युम्नम् देवभक्तय निष्ठा जातेन जगदुजनित्रे स्वामण्ये निजमाना विश्वापसूनि प्रयाभाद्रविण मिक्षमाना भजङ्गोमो गौत्रः न्नश्च नो जयश्चन देवस्य लक्ष्मिणः सङ्खतान्ताय नवोजन पुरत्वारुष्केवानम् देशे फलफलवितमस्तु <laughs> प्रदेशास्माभित्वा ो ने स्मृतिगन्धेन पत्मैतध्यो नेभ्यम् सुरता सत्यैन मन्दाञ्जनयस्तुपत्ने मासेव पुत्रम् विभृप्रयणम् अत्रौषधे नाम् गर्भवनत्वदीनाम्भोदिष्टस्य भोजस्या मातुभित्वञोनिस्मान् पुनराधुरः पुनरासध्यश्चिरेवग्ने शेषे मातुर्य भवतरस्यागुरुशिवतमः पुनरोवच्चश्च पुनग्नयुगाविभा पुनस्पतः शालैर्यानिवक्षाध्य विश्व पुनस्ता नित्यानुसवस्त पुनर्ब्रह्माणाः सम् तेजलानुः रोधाः ह्रीयन्दाम् वन्दे अग्ने भावः ध्यत्मद्वैजाे हते कवे कविदोलय तत्मपुधानाय कनोतराः हतानम् पृथिव्याकरण्यमम् पिलवलोकमत्मै अज्ञेभत्मात्यज्ञे पुरेणम् वैते नाम धनम् भोजाय संयामप्रया सर्वमस्तम् प्रयासृदयायवः आत्मास्तंत्रोम हय अग्न छमिंद्रुत आगमचंद सत्यूषा अग्रिवाच्चारे ौर्यक्षयाक्षानुपतिष्ठन्तापः अध्ययस्य विवक्षपृथिव्यायो वायुरक्षा एनान्तरिक्षमुदम् सद्वैतश्च भागम् नमोभ्यक्षाः अग्निनप्रावणेभिस्तकम् भव्यमाहुतायैवायुजोभिः यस्तो अयम् धेयो निर्दित्य चिरसितया एवदयाङ्गम् प्रणातो नाम चेतलम्यम् जच्छयः जन्म देवारो दिवः अपितम् सङ्कल्प्यम् प्रयोपमश्यमानौ इषमोकम् भावनागौकरणम् अग्नेपदेश्यान्नः इषमोद्यमानायः पुरेष्यत्वमर्गेन हिमान् पुष्यमागुङ्मादिषः सर्वायः भवतम् नष्टमनपुषो मालेज्यसौ शिवम् चिम् जातौ शिवो भवनः मातेव पुत्रम् पृथिवे पुरेश्यमग्नेज्यक्ले नापमारुखाम्भेत्तम् विधानप्रजापयति भातिमुञ्चतु जगदश्च तन्नः परितृत्य समस्तु ते निर्देलोके रक्तम् समे रक्षा संविधानाम् समन्नायम् यच्चेदे भवन्धरागत्यम् इदम् एतद्व्यायदानमध्यातमध्यक्तमुक्तः जनाय भो वेदस्वादिना विगुम् निवेशे स्वाहम् वरिवेदविश्वसः असंवन्तमलितमानमिच्छेदख्याम् तत्र रत्यान्वेः हल्यमस्तो विनिवेदेव बुद्ध्यमस्तु हे महन्दे किंवन्दमानप्रिले उत्सम्यगेव चिन्ता महावद्रिणम् नयम् विक्ताः तत्समक्षितम्कृताः परगुसुवरत्रेदनम् हीरायञ्जन्ति कवयवनिवाेषु नयाक्षत्तफालम्पे म् सुसेवकम् सुमतिथलोषिकामलिम् अधर्जम् च पीडयेत्मालाचरम् सुभोलिकम् सुरम् केनाश अभियन्तु सुनम् पद्यन् नोम तु नामस्मातुम् कामम् कामसुभे दुःखमित्राय वरुणाविध इन्द्रायाजोष्ठतेभ्यत्रैवम् पुरा ग्ने वा िला नोक्तः आत्मायष्मश्च नश्चिपुराजीवसो सङ्गच्छन् तैराजायप्त हृप्रस्तवच्च विषग्रक्षोभामो माताग्रस्थसङ्गतेः य देष्टन्याम सन्न्यान्यस्या उपामता सागोषभयस्तम् विधाना एवम् मे प्रापः महात्मानन्तराष्टाश्च भ्रजपक्रमः यत्किञ्च तादृशः स्मः पदः साकश्च प्राकन्नश्चयन्ते मुकमचन् अवदन्तेन वदन्ति वघोषधयत्सरे ैत्याः जन्मन्ति याश्च सर्वात्मैकजम् भावोचत्खहितायच्छे दाहम् खनायः शिवश्चागमम् सर्वमत्मनामरम् ओर्जयत्सम् वरम् देशो मेन सहाय्याः ैब्राह्णश्चाय पृथव्यायमाजाय हमिता अवरान्ते शुक्लयच्छन्द्रयद्वयौ ज्ञे ते रत्ते आयोमर्त्या शुक्रवच्चवच्चः पुत्रौ री यत्कस्ताम् सरोनाङ्कमिश्रुतम् प्रलक्षितायम् इष्टया य प्रथमेश्वरस्त्वमवक्ष्यम् गे हन् देपयागम् कृतमयम् व्यक्त्ययान्यः आज्ञायमान अमृतायपालये हभ्यमालादे ृहस्परित्सविकाशम् महाकेन बाहो वस्तु सञ्जलिमनस्य भुद्रमभिलक्षिण्वनम् महाजपुष्करम् यममात्र ब्रह्मयज्ञानम् प्रथमम् पुरः हिरण्यगन्धत्व जातमायदेवाय हविः संरक्षन्तु हे अन्तरिक्षिविभ्यो नमः एतेभ्यस्त्रुवनमः एदे द्रुवणादिधरुणास्तु नाविश्वकर्म नासुः आत्मासुमुद्रमुत्ेन्मासु ब्रह्माप्यसमानापृथिवेन्द्रबुहा प्रजापयस्तां प्रदर्शने प्रभाशुप्रिभोरस्य भुवनस्य हर्तेभवेन माहि जानाय ज्ञानाय दानाय प्रयै चरितायातन्त्रया यदयाङ्ग ेन प्रहस्वेन विरोहे राज्ये विषयम् हसहमाना सहस्रे सहस्रनादे यतस्सहस्रपुरुहस्वदम् जनः पुनः महेद्यावकृक्षताम् तद्विष्टाः परमम् पदयम् सदा वच्यन्त्येवेऽपि नेनागाः निवमा हन्वन्ति सत्यभिः यनायणस्तु रामो देवा तस्य विराजः इन्द्रः सर्वाधीनन्द्रहंसरेण ह्यो जनधानय सम्राज्यो निय स्वराज्यो निय अज्ञाध्यमा स्वादो देव साधवः अहम् अहम् जासवः विश्वाभिभोतमान्यश्चेजम् सप्तञ्जभा <ERC Dulcestershire> <S musician Festival> <necessary> ज्योति <Sessly> भजन्नास्तेभ्यः <Sessly> <Sessly> ङ्गम् वैमञ्जरम् विश्वम् अयर्वन्ध्यमाभिलक्ष्यपाले हीयमाणः शिवम् मा एवम् पशो नागुरः साक्षमेधा वयिवारण्यमनुदिना मितेन जिम्भारमीनाध्ये नौरमारण्यमनुनामिन जिं तनुवा अजत्रमिन्दमरु हरो वरुणस्तनाभोविन्दज्ञानागोरः परमान धने हस्तेन परमेण जामन् हिमागोहायम् वरुणश्च माया फलम्बो नाम् हिमलाय च पशनाम् प्रजानानाम् परमञ्जले च माग्ने माहिन्धे परमेण जामन् ग्ने हस्तपोभिगम् भाग्या नित्यमग्नेः हस्तविषय अयाक्षज्ञेन चेष्टगम् ञ्जयुप्रवीर्यम् श्रीमद्वृत्तमोवाय इन्द्रायो अग्नेभुदेव यत्रः प्रमासः कालाजयन्ताः नाहरे रक्तपतिवना जन्या मरुवायश्चनः यज्ञवाविप्रज्ञवान् न्द्रमात्रे प्रियश्यमारुम्नः शयानिश्चित्राभुवजोगेच्छया ीवतो आसन्निषो मोज्याम् सन्नफलम् कुर्वाजे वा प्रषाधन् मायधे हिमं नैव वर्णतत्तायायच्छन्नाग्नेभम् न अग्ने ओम् अपाञ्चयवयाम्यपान् त्वध्वनियाम् जपान्ता भत्मी सालयाम् जान्त्वा ज्योतिषादया जान् त्वायशादयाम् मुद्रे केऽधि दशदिने सदनेऽपि तापान् क्षलेऽधि तापाकुंसधिताम् त्वारदेवादयाम् जपान् त्वारक्षेतायाम् जपान् त्वापुरे चेदादयाम् जतान् त्वाशोराजयाम् जतान् त्वापाशराजयानि कायक्षेष्ठम् त्यक्षन् रो जगतीर्थम् त्वम् दः सन् तिष्ठन्तः अयं पुवत्तस्य प्राणोभौ वायनोपसन्धप्राणाय नोकायत्रैवाहन्तेकायत्रिगेका यत्सङ्गायच्छा तु प्रजापति गन्धार प्रजाभ्रवजं दक्षिणा विश्वकर्मानश्च मनोरेष्वकर्मणेष्वमानश्चेष्वैन मेना न्दर्यामान्दर्यामात् पञ्चदशः पञ्चदशात् गृहगृहस्ता जलप्रजापतिगृहेणयात्मयामारणानि प्रयात् स्वयं पच्छाद्व्यधाव्यं परिणायिना क्षणाय जगीवालये जगत्यानिक्रमक्षात् शुक्र शुक्रात् सप्तदश सप्तदशात् वै लोकं वै गृह्णामि प्रजाध्य हिरमुत्तरात्त्वभुम् प्रौकं गणक्षौच्य रक्तभक्तारपादान् मन्त्रि मन्त्रिण कविपुंसेन कविपुंसात्त्व राजं वै राजागृहे प्रजापरिगीरगणा त्वया श्व प्रजापरिपदपङ्कज है मन्त्रे पञ्चे निध यनात्मवत्तयरुषोत्तमवर्तयुषात्वजावरि प्रजाभ्यः कार्ये धामोद्यम् देवता ब्रह्मद्रविनन्द्र भक्तौ पञ्चदशमत्रक्षिणादिनाम् हेष् देवताः क्षत्रेन्द्रविधं पञ्चदशत्र भक्तौ सप्तदशमक्षयज्ञाद्वयप्रेतायानां दक्षिणा वातोभातप्तप्रदेशेषु भयदाम् तिष्ठे देवादेवतायद्वैरं सप्तदश वस्तुरेकविंशवत्कलित्रोदयां तस्यां गोनां निद्रा वरुणो देवता भक्षन्द्रविनमेकविवंशस्त्व वस्तवक्षनवत्कले तुमुत्तराय द्वादोत्नलितो मुत्रयश्चयष्वान् त्रयोम् विष्पग्भातो वातस्तु बन्धयतितायवयश्यम् ब्रह्मन् मह्यम् क्षत्रयस्यामाधिष्ठस्याम् परोधायाम्यम् ब्रह्मन् लक्षाम् जयभो भो भवादि भवानयोमाधीरथा पुरस्तादशिनाः ध्वर्योधायलासम् यो नोगादयनारीरौ िनाः पर्यो विहत्वाः सर्वदेशमेशप्रजापदत्रेनाय दत्वा ्यानाभिक्षम्भये निजापत्रे भुवनानाम् ओद्रो अपामभिश्वकर्मादयि लक्तिनाः सजोधा जयनाभिरक्षाः सजो जुषभिः सजोगिताभि सजोषभिक्षजो रुद्रे सजोरादिश्वे सजो विश्वये देवे सजो दैव सजो दैवयो नाशैरक्षये यदा श्लोकयापत्यम् लोके मध्यमानत्वारलोच्च गर्वयत् प्रत्यच्छन्द नित्यमयो दयाच्छन्द पञ्चा गर्भयो गायत्रे छन्दश्च भक्तोभय मुक्तिभासन्द पुयमाद्वयो मृत्युच्छन्दः प्रच्छलाद्वयो विरजे छन्द मुक्षादय प्रभृभदे छन्द यथामय प्रवच्छन्द धर्मयो जगदेछन्द धाद्वय संकेच्छन्द भो वयो विमलन्तन्द वश्चय विकालन् छन्दः पुनय ञ्छन्द्रमम्भो वयश्चन्दो विष्टम्भो वयोधिपतिच्छन्तः सप्तम् वयोमयम् यच्छन्दो यच्छकम् मा वयः परमेऽेष्ठन्दो मोर्थवयः प्रजाप च्छन्तः इन्द्राज्ञकान् अध्यावा अन्तरिक्षम् गिपाहताम् न्तरिष्कृत्य भास्पदेव्यारम्भात्या मन्तरिक्षैर्यन्तरिक्षं मृगोहान्तरिक्षं वायितुम्भये प्राणाय प्राणाय ज्ञानाय प्राणाय प्रतिष्ठाय चरित्राय वायपादन्त ुजे गतिवक्ष्यगेरिकायम् मे बालक्यपानम् मे पाहिज्ञानम् मे पाम् मे पाप्तम् मेपादम् वेजम् पादपानम् मे पाद्रोजम् मे यच्छा मादन्द प्रमादन्दप्रतिमाचन्दे विच्छन्दच्छन्द्र उत् आचन्द्रहे छन्दच्छन्द्र विराच्छन्द्रो गायत्रे चन्द्र प्रक्षन्दे छन्द प्रतिरेन्द्रवच्छन्द समाक्षन्द्र नक्षत्रायषन्द्रो मनक्षं लो वाचन्द अगदेवता देवता सोमदेवता सूर्यदेवता चंद्रमा देवता वसवो देवता उज्जा देवता इक्षान देवता मिष्टेन देवता बलतो देवता पृथ्वय देवते ध्रुव देवता परमो देवता भूद्धाम विनात् स्वारी ध्रुनाय जंति मिस्वेन Bhargat sarvasthay by 10 minutes by Indra duri hari dhakya dhritchaise paratsa soujathe kamana lepa आदौत्रवग् पञ्चदशाख्यामो नवंसो भेकवित्वारिपुंशत्सम्भरत्रयो विपुंशो यो न विपुंशो लभ्रा पञ्चलविपुंशो यत्र नवक्षलुक्यपुंशस्त्रिच्छात्रे त्रिगुंसाभ्यर्थश्चपञ्चलक्त्रिपुंसो नागच्छत्रिपुंशो विभक्त्वायत्वारिगुंश भागोच्छाया आधिपत्यम् ब्रह्मस्थम् प्रभ श्च भागवादिवत्यं षट्लस्पदम् पञ्चदशत्वमलक्षधां भागवादिहादुराधिपत्यञक्षं सप्तदशतामाभित्र भागादिवर्णश्चाधिलक्ष्यं जिवृक्षर्वादाय विपुरुषाधिक्ये भागवादिकोक्ताधिपत्यमो यत् पुरन्त्रमा भागवादिदुर्गानामाधिलक्ष्यं चलक्त्वा पुरञ्चलि त्यानाम् भागो मरुतामाधिपत्यम् गर्भापञ्चविपुंसत्वमहोदयेन वक्तद्भागवायुगृहात्मनेराधिपत्यम् फले कृता कृष्णमत्त्वमो यावानाम् भागावानामाधिपत्यम् प्रजाकृता कृतश्चत्वारिपुंशत् समनुभूनाम् साम्यविश्लेषान् सेवानापाधिपत्यम् भूतम् निशान्तोमः एकजामद प्रजाभियन्त प्रजापतिरधिवचनाभे ऋतुभिरत्वमधब्रह्मादृष्टब्रह्मणः प्रजधिवजराभे पञ्चभिरस्तवद भोतान्यसृज्यन्त भोताभावजनाभे सप्तभिरस्तमद प्रजया सृज्यन्तघाताधिवजनाभे नवभिरस्त्वमज्यन्तादिजधिवचनादेकादशभिरस्त्वमोज्यन्तास्तवाभिवजनाभे त्रयोदशभिर त्व समासाज्यम् च संवत्सरोधिवयराजे पञ्जुभिरत्वमधिकेन्द्रोऽपयरागे सप्त ऋषभिरत्वमर अशमादिज्यम् न मृहत्वभिरभिवयराजे नव ऋषभिरत्वद्राग्यामसो रात्रे अधिप्यास्ता सत्यास्त्वैकसधा अशवादिज्यम् नवयरागे प्रियाविगो सत्यास्त्वमरक्षत्या अशमाश्यन्त क्रोषाधिवैराधे पञ्चविकं सत्यास्तु वारण्या अशमाशृत्यन्त भार्यधिवैराभे सप्तविकं सत्यास्त्व सद्यावाभिैताम् असमरुद्या आदित्या अनुज्ञायन्ते रामाभि नवरिवं सत्यास्तु शमनस्तमयाश्यन्तंशदास्तु वत्रया अभिज्यन्तया राधान्ताय धिपत्यनाभे त्रय त्रि नूतनास्तुवृतान्यः परभेत्यधिपतिरा यमेव सायात् प्रथमाद्यौक्षसंगजनित्रे त्रयनाम् हिमानत्वे सुरन्ति ो जने कालाः प्रजले कालक्षतेवयोश्च भक्षाकृतया भवन्ति कायत्येयम् कृपञ्च पञ्चासा वयम् चेत् कृत गोपदाः एवं च वयम् चेञ्चमानाः विदो गच्छम् वदे शमयप्रजा प्रयन्ति भास्वरेञ्जले भो यच्छम् वदानि विपक्ष्यन्ति पदभो जायमानातुरस्याम्बिमानमिन्द्रम् क्षन्तः चन्मिच्छ मनो यथा योजमन्याव अन्यामजिमाप्रयुक्ता विश्वेनाथम् भोजागमस्य तु मनो यथा योजयमन्याव अन्यामजिमाप्रयुक्ता पञ्चव्यष्टेन पञ्चदोभागान् पञ्चलो न पञ्च पञ्चविधः पञ्चदशेनलोचनेकम् च भक्तमाव्यौ दृक्षमायैकामहिमानम् विभक्ते ब्रह्मैकाल्येच्छति ृद्धे जलामजलोषागाः पत्रे प्रथमेकमाङ्गानाम् अस्मे वेदे भवन्तम् सम्बन्ध्यवलोसमुत्थिरे प्रणदान समर्थान् स्वत्य जाताम् जातवेदमोणस्व त्वमोदत्वा चविनपंशामोजाम् ज्यात् पुरेशमस्य स्वाम छन्दवच्छन्द्रम्भोच्छन्दः परिभोच्छन्द आच्चन्द्रामहच्छन्द्रा गच्छन्दस्मिन्ध्वन्द प्रमुख सलिगच्छन्द्रच्छन्द्रियच्छन्द्रा बृहच्छन्द्रन्दा निरायच्छन्दा विवृधन्दा विरच्छन्दाच्छन्द्रप्तच्छन्द्रन्द्रगुच्छन्द्रियुच्छन्द्र भुवन्चन्द प्रथवन् वचन्तः वन्देत्सं दोरतः वचन्तः श्रोदावृद्धान् तयत्चच्छन्तः वचन्तः नवे वचन्तः परिहत्सं वचन्तः यत्चच्छन्तः विजानन् संदो विस्पद्भाः चन्दत्करत्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त् ुत्रा भद्रादेशो रक्षुणश्च नेकमुपाकारोच्चयाचितम् कृते हस्मेवायच्छोपा स्वस्ति ने पृथिव्या विस्वायुवेदेव पुरोहितज्ञम् भवतायम् कृषादने परुषः कृषाधन्माय दशतस्ते न हे त्वम्भरक्षवः हे हे अग्नेभोदनामस्याय यक्षः समे देवो जयसो आत्मच्चो रत्तं भवगो देवे चदुभिः नज्जा उपाईदा देमकेन आकिर सोढो समियावः भिक्खानि अज्ञा अज्ञा रेमत्त वत्तो न मे नो दिने दिने चनो लोके रत्तमं तयस्सानानि लभते क्वचित् वर्धनः भवित्रस्तो मनोभा लघमयता भोदा समाजनो अगम तथा ओर्गे गणेशनाधिमराक्ष मरावदन भागत्रयनाम प्रबस्विरादिदेव महागौटिप्रणावाइ प्रयज्ञमक्षार्थं आसीनोऽन्यं भागमेदम गणवेतेयं अलसोऽर्थं उपजमेति वदरेपुनर्चन्दोरावत्तार हविष्मदेहिनादि उपस्ते नमरबर्यर्वतो जो जिमाः ज्यागे सतमाय उज्याजस्टो रक्ष जेवताई रख्षा सदिनने मुंस्वर अगेडि बिचंतो तेयं मच्चत्भो मादमन अर्रायनु नते दुपं। खन्दा अधिक्त गाईदा अच्चासोनय अरुपस्थंचो नक्षतु एव हनने फासिदवानो वक्ता नो रपक्के अपयोधाह प्रहामज्रण रवि सवरेव परेतते धौर्यामे जगतयन्तये सुभे तेव श्रीनयो सुरा प्रायः परममहितं वनंतभूतनः वक्खवेयते यमजनेव मलकस्य अनितपहा हव्याय लोषवे इन्द्रे जनाम्ब विश्वर विश्वणि हरिदा वृधामा विश्वकर्मणि हरिदावर्धनेण ओ क्षणाय त्वाक्षयं जम्बलर्माय साधर्मेन्द्राम्भाे स्वामित्यं जन्मचन्द्रन्माजराद्येमोभ्यो जिन्म कारभ्यक्त्वा जन्म हेमदक्षौत्रौषधे जन्माधिरक्षग्रामेन्द्रायतेन्द्रं जन्माधिमयभिक्षाणायत्वात्रां जिन्मयन्तापाय त्वा धानं जन्मं दत्त्वाधिक जन्मवयोधा अधिवात्रादिपाचन्मद्विवदधित्ववदधि अमृतति दिवदधि नं रवादिने राभवदिवधिकेभ्यधिलक्षिर स्वमप्रिव्यागच्छ स्वाग्यमुखे स्यामप्रदेश इन्द्रहैलेनां परिभक्ता पञ्चदत्वा स्वम पृथिव्यागत्यौघमुख्यमन्त्रय स्यापृत्त्वा भगश्च प्रदेवादित्याश्चय देवाहिमदय स्वम हृदीनां प्रतिभक्तां प्रदं प्राप्तामृष्टय प्रदेय भक्तमज्य शैष्ठम प्रदेशस्य कैवल्यभक्तं षष्ठ कृत्यांसौ स्वाथिव्याविश्रयणाशयं ते सभेनागुसा ब्राह्मणेन पुरस्कृत्या त्यवृत्थेषु अर्गे लोके विजमानम् च साधयन्तु अयं परोहरिद्रामन्यो याना हेगेनक्षाकुण्ठरे जयं दक्षिणाश्वरम् मातश्चित्रौर्येण जयं पश्चाद्य हेतु्याहे जयत्वस्य निश्चयेन ग्राह्मण्यो विष्टादे चरदा बापो हेत हे जयर्वाग्दत्तक्षरा कृष्णानिश्चलेन निश्चलयैनानि ग्रामण्या गुर्व पूर्वदिद्यमृयम् यस्मा यश्च नमाद्ये घृं गोजम् वेदधानां ज्ञायत्वा जनमसमुद्रिलक्षदे त्वाभोमतेभूमते हरिवम् माहिकम् कृष्णस्मे दानाय दानाय ज्ञानाय दानाय प्रतिष्ठाय चरित्राय सोय स्वाभि सत्यसातन्त्रमे दया देवदयाङ्ग्रुवारणात्यस्था आर्यत्रपात् अनुभाजेतो चेरधर्मते वचनेन व्यक्त्मक्खे अनुचरमो धाति लङ्कगतपदपशिर्यायम् आवागन् रेदा गुरुजयनवशे कावग्ने पुस्तकराज जनबाहिरवंशरा आवश्रालितस्त्थ वाहनतः अयमज्ञ्यस्तस्हत् सेनां भारत्सलविहरपतिः आवद्धान्गमेनेन निवाचने मुखादम् चत्वारि भक्तमयामुना प्रभागमचा ेव आनकं अंगिलं भगवान् हितमं परिविन्दन् शिष्यज्ञानं वदेवने सञ्ञायते यत् समानात् सः महत्त्वामा वत्तः नपुत्रमङ्गिरः हेलकेष्टगेवं समं परोदिना मञ्ञेन नरप्रगटते रुमिन्ददे हिन्द्रेण एव सर्वगुणम परिगते वन्त्योता इदसावेत् सः सः काञ्चित्श्वक्त्वा महत्मन्दे अक्षजन्तमः ुले प्रयन्ते वित्थमरफलम् विश्वस्य दोतमतम् प्रयोजते अरुजो विश्वभोजनासुद्रमत्साहुतः सुब्रह्मा देश्व च देवदूनाम् देवमूलाभोजनानाम् पुरस्य सोजरत्वरायुक्मानस्य देवतः अर्जुनतोभोपदयीता भ्यम् पूर्वदेव देविः क्षतोराजन्मत्मनाज्ञमन्तम् देवाजलम् श्रद्धत्यादेपदीयदे समित्यमेव आदे अद्यपरेन्द्रम्भोदस्तोतु उभयश्चन्द्रजोदेवन्नभद्रगोभचृशम् क्षस्तदा सत्यजयनन्दो हजयनस्तमयम् चतुष्माः हे धृन् अर्जयद्भवानो अद्मनान् सुभर्णज्योतिः अग्ने विश्वे सुमनारीकैः अग्नि कृपा त्रिलक्षविभ्राः शमो दिश आदिने त्वम् उत प्राता शिव भवन्ताष्ठहेमः पुन्नाय लोनले महेभयः रक्षालक्षमोन्दाः व्यक्सन्तायमयाः ीजाय जनपादुराय प्रभ्रयन्ते मेघयन्ते वर्धयन्ते चलेका नामा ब्रह्मणा वृक्षामलस्य मे धर्म च ब्रह्म भवता मे धर्म च ब्रह्मजास्थ भक्पदि स्वादावेन वृद्ध्या पृच्छे द्योजस्पदे विश्वस्मै प्राणाय बालाय विश्वञ्जोदरे यच्छा वृत्येभ्यपदं विश्वजम् आत्त्वादाय स्पन्दरि कश्च वृक्षे योजस्पदे विश्वस्मै प्राणाय बाणाय विश्वञ्जोदयच्छानुभ्यपदे प्रजापदि विश्वस्मै प्राणाय बालाय विश्वञ्जय ृष्टिवृत्ति रक्तवानामध्यैवायाम् मन्तरि प्रचलिवान्यमानामन्तरिप्रयान्य कन्दरिक्षमक्षन्दरित्राय स्वादविनाय स्वाधन्ये गाय स्वापदेकाय स्वाखेनाय स्वाजय स्वादिवय स्वायिव स्वा ज्योतिषाय चायुजय स्वाहा जय स्वाभाजय स्वा ज्योतिष स्वायुजोदायुर्व न् पापयजवच्चोदान् पावत्रयित्रविनोदान् पात्रविहेदादया विषयः ब्रह्मराजया देवदयान् भोजकृतशिवरिवृक्त्राच्यक्रोद्धा चन्दलक्षय देहायम्ना कपलिजुवशिव्यानेतादया चन्दलक्षस्य स्वा त्रिनेदाजयामि शिव पात्रिमेयामि दिशान् त्रिविनेदानयामित्र विनोदान् त्रिविनेतायामित्राणम् ध्यानम् एव वाक्यं एव विश्वं एव सर्वं एव वाक्यं हि ते महाकुम्भा वताम् एव इदमूलभाय आमिन्द्रञ्ञेष्टक्के तनेयामा अज्ञावळे बहुमार्दव शब्दसर फुले गहा अज्ञा विश्वसा नमः सोजेरत्तः चत्वदिम नमः यज्ञेन भगवान् दक्षिणया सुभक्त्वा प्रजावरं यत्सं तनोभिः प्रजावरमनसं शौचे लोधाधारिक्करणं चैतावृत्तं पुरागणक्त्रय्यां महावदनतो रक्तिनां मित्रतेरस्य कृतआसादितोऽज्ञेयः स्तवर्भुजम् गतः देवतामन्तुेन क्षत्रं भगव देवता देवतामित्रा नैवता स्वापेन क्षत्रम् वायुदेवता ृतो तपश्चलवच्चश्चै जिलाभृतो कल्पन्ता मामोऽ कल्पन्तामजय प्रथमजेष्ठ्यायुतै जिरावृतो अभिकण्ठमाना इन्द्रयव देव अभिसम्बितं ्रादिहस्रादिमाने अग्रहिष्टकाधेन वत्सञ्ज सहस्रं चाइनं च भीलं च प्रेतं चाद्वदञ्जन्य भा च पदाने अग्रहिष्टकाधेन माधया रक्त वाकिम् मधो माधवक्ता न्दसाम् अन्धातुम् समुद्रोधामर्तो उग्रादिशामभि तोदशेन इदम् क्षत्रम् दत्तरनाधक्षगुण्डगुन्तरे ऐरोके रामम् जगदर्शे मिवत्तेन मिश्वा वेदयामः विश्वे देवता सप्तरसेन वक्ष इदम् क्षत्रयुन्तम् धेषाम् क्षत्रमिदङ्गाधारो हस्तानाम् मित्रः दत्तोजः त्वभावम् मित्रावरुणाक्षसमाधिपत्यैः सहताः द्वे अपत्यपातामवन्तः सुपर्वते हेमत्सामाधिन्नापुतन्दोला अस्तु सोमप्रयत्विपुंशे भुवनश्चपत्यैव स्वद्वाचे अभिनव गणा हि धृतवदेशवितलाधिपत्ये प्रयस्पदे अस्तु गृहप्रजन्मानयस्को अभिनो जनन्त ृथिव्याच्चेता नाश पामिक्रमन्त्री हैश्वालो नत्यायञ्च ॐ नमस्ते जय प्रथमनय बाहुग्रं वने नमः जय अय्युष्यवदनं जीवत् करोधेशनोः सिदादव्ययादा वदनां मोदुमदया ज्ञारे कुश्मानं धर्मोर् गोना पापकारशिनी दयाल सर्ववासंतमयगिरिदंता विचागतेहि तामगंगे संहत्त्ये वर्षत्ते सिदाभिगेयस्य दारां मलयं ते जगद्रुमनाम्भयन् सर्वाधान्यः हरो रक्षामयाक्षाय <Sessantan> <Sessantan> <Sessantan> <Sessantan> <Sessantan> अतोरे अत्रस्त लोभं चेत्रं नमो नमः पदमद्रं धम्मस्तमहाय वरास्ति महोच्चं साचरेह पेनवक्खदां भगवत्पका अवरेतय हस्तं गुह्रात् प्राक्दरदे रुभे निखिलं विज्ञाना मुखासुवरक्कमना भवः तेकि जनधनं वर्तिना विडितं लोबानभागं पुटा अयम् ममकेव आभर्त रंगरे तादे हि तमे लष्ट महस्य महोपदेशम अधात्ममाई स्वदस्वदिक्मयावरभुजा भवत्यत्तोयतोयन् न सदा रिच्छे वाच्यमृधे नमो वाभुज्ञान स्वदनपने परेण ममनो हेतप्पान् कृत्वा विश्वम यनाम् पदयञ्चलयेन मोनवृशायन्द्राम् पदयन मानव हरिकेशायुट्टानां पदयेन मोनव भवतः नव रुद्राय गाभिनां पदयेन मानवप्रोतानां जायवनानां कदयेन वा नवो नवधिकाय स्वपदय वृक्षाणां कदयेन वा नव मन्त्रिणे वाहिताय कक्षाणां पदयेन वा नवन्तये वाय वधीनां पदघेन भानवमुच्चये क्रन्दय ङ्गिने पदजैनोङ्गिन युधिमदे सप्तनाम् पदजेन भवन भो पञ्चलेन पदजैन भवन मोहिजेन आरम्भानेभ्यक्तविधानेभ्यश्च आगच्छातुष्टबाणवानमाक्षालिभ्य धर्मे दृष्टवान भव नमः पितृटाः स्वाधा दृष्टवान भव नमः विदुषां भग दृष्टवान भव नमः गयब्ध परि दृष्टवान भव नमः स्कब्ध दृष्टवान य जनमशिवाय जनमदराय धनवश्रियध्याय जगोल्यानि जनमर्याय दान भार्याय जनमप्रदरनायक्तय जनमहार्याय दानाध्याय जनमप्रत्यायन्याय धनमप्रिप्याय दत्तवाक्याय दा ्याय जत्याय जनमक्षं जनाय रक्षयनाय जनमत्रमज्ञय जनमगोच्याय जगत्याय जनमस्तय जयैत्याय जनमक्ताख्याय जगप्राय जनमहाय जगेत्याय जनमप्रागं सत्याय जयत्याय धनमस्तु क्र्याय जायत्याय जनमोद्याय दवनस्याय जनमोर्याय रतोय धनमःप्याय नमा क्षिते भ्रवनमाभिक्षिणये भ्रमनः मे अन्धसप्तन्येन लोहिताम् सुनाम् य नमदेशे जय श्रीराय प्रमे विश्वं भक्तं प्रजा नम्रवमय क्षन्तौ <laughs> नमो नमः विधेवते आरास्ते गो तमगोदकं खेपिराये नमस्ते नत्त्वा न अदितमे रब्नोक्षदा तमयत्तम किमहा कृष्णं नत्तमदेवयानं भगन्न वेमनो पाठवक्रं भलारित्रे रक्षकं अदित्यं स्वन्न्यमम हृदयना जगत्यम्बना मनाश रविना गे श्रीनमस्ते अस्तु भगवः न्यः साय सहस्रेतयः सहस्राय नरें सहस्रयोजनैव संवादिदंवधि श्रीकन्धाः सर्वासहस्तीकन्धापस्थिताः हे लक्षेण सत्यम् चेवा हे अन्यैविध्यम् देवाश्चैषो हे प्रसाम् एतायन् एयस पाणि प्रयोजन च गावम सारं भङ्गिनः ते गावम सक्त भोद्यां सक्त दिशा रुद्रा विनिष्ठिने ते गावम सक्त यो लेव बन्तराय सम्महे नमो रुत्रे सूर्य रुषाये दैत्ये विनेथाम सम्मातो भये भाते क्षदयम् यत्तः परिगयामीपस्सभ्यमम् शिवो भवान् हिमच्छागताः मुद्रस्य <Ceqan>, निवेशनम् हन्यन्ते अश्वपञ्च हेदयप्लभो अस्मभ्यगम् शिवोभला नमस्ते हर जय होविजय नमस्ते अस्वच्छन्ते अश्वक्तपञ्चरेतयपादको अश्वभ्यकम् शिवोभला हृदेवुतदेवत्वलदेवत्व ज्ञे अत्ययम् फलञ्च हे देवादेवे पथिवत्मनिले ब्रह्म एता दिवो न दिव्या हेतु अश्वपञ्चय प्राभव अश्वभ्यगम् शिवभवः अद्य त्येन सोचिनाय सत्य सन्ध्यक्षिणम् आद्योषयम् हैनाये ज्ञानेवागुमायष्ट स्वस्ते anabho gaubhaka prastha ajna juna devavsiri